वदतु कृपया विद्यारम्भं करिष्यामि सिद्धेद्भवतु मे सदा धन्यवादः हरि ओं नमो नमः नमो नमः सर्वेषां स्वागतम् अस्तु आरम्भं कुर्मः अद्य दिनस्य विषयः अहं न प्रेषितवती किमर्थमिति चेत् अद्यदिने किञ्चित् भिन्नं प्रयोगं वयं कुर्मः कथं प्रथमतः तु सम्भाषणम् अस्ति सम्भाषणस्य प्रथमं कुर्मः सम्भाषणस्य पठनं कुर्मः अनन्तरं विषयः कः तस्य अवगमनं भवेदेव एवम् अस्तु सर्वे सिद्धाः भवन्तु स्क्रीन् दर्शिष्यामि नूतनतया तत्र कः आगतः न द्रष्टुं भारतमहोदय वा नमो नमः भारतमहोदय अस्तु स्क्रीन् दृश्यते भगिनि ीन् दृश्यते आम् दृश्यते कथं करणीयमिति अत्र आचार, आचार्य हा आचार्यः अस्ति भारतमहोदय अनन्तरं तत्र राजेशः अस्ति ममता अस्ति रजनीश् अस्ति गीताञ्जलिः अस्ति तत्र कथं कुर्मः आचार्य अस्ति भारतमहोदय अनन्तरं राजेशः राजेशः कृते जयन्तिभगिनी पठति अनन्तरं ममता राधाभगिनी पठति रजनीश् माल्तीभगिनी पठति अनन्तरं गीताञ्जलि अहं पठामि अत्र अन्य कोऽपि न दृश्यते अस्तु आरम्भं कुर्म भारतमहोदय आरम्भं महोदय ओके एतत् सम्भाषणम् उच्चैः पठन्तु अवगच्छन्तु चो छात्राः अद्य भवन्तः किम् आचार्य पृच्छति किं ज्ञातुम् इच्छन्ति तथैव अस्माकं वर्गे अपि तत्र विषयाः के विषयाः सन्ति तस्मिन् विषये अहं किमपि न उक्तवती किं ज्ञातुम् इच्छन्ति भवन्तः सर्वे छात्राः मिलित्वा वदन्ति श्रीमन् अद्य वयं श्रीकृष्णस्य विषये ज्ञातुम् इच्छामः श्रीकृष्णस्य विषये ज्ञातुम् इच्छामः इति इच्छा ते सर्वे प्रदर्शितवन्तः अस्तु अग्रिमे आचार्य उत्तमं भवन्तः प्रश्नान् पृच्छन्तु अहम् उत्तमं वदामि प्रश्नोत्तररूपेण तस्य ज्ञान ज्ञानजनकप्रश्नाः प्रश्नान् पृच्छन्तु अहम् उत्तरं ददामि अग्रिमे तत्र का अहं का राधाभगिनी जयन्तिभगिनी वा मान्तिभगिनी राजेशः पठतु जयन्तिभगिनी राजेशः अस्ति जयन्ति भगिनी आं भगिनी राजेशः श्री श्रीकृष्णः बाल्ये कीदृशः आसीत् सः किं किं करोति करोति स्म हा श्रीकृष्णः बाल्ये कीदृशः आसीत् इति प्रश्नः राजेशः पृष्टवान् सः किं किं करोति स्म इति प्रश्न आचार्य प्रियछा छात्राः शृण्वन्तु श्रीकृष्णः बाल्ये बाल्ये अतीव चञ्चलः आसीत् सः बहु पीडि लित, पीडति स्म प्रतिदिनं वनं गच्छति स्म धेनुः चारयति स्म अत्र सर्वत्र आचार्य किं वदति क्रीडति स्म गच्छति स्म धेनुः चारयति स्म अत्र स्म इति योजनेन कस्य कालस्य बोधः भूतकालम् भूतकाल, भूतकाल, भूतकाल, भूतकाल, भूतकाल, अत्र क्रीडति स्म गच्छति स्म चारयति स्म इति सम्यक् एषः एव अस्माकं विषयः स्म इति योजनेन वाक्यरचना कथं भवति इति अग्रिमे कः कः कः पठति वाकः पठति सः अन्यत् इच्छति स्म अत्र प्रश्ने अपि अन्यत् किम् इच्छति स्म प्रश्नस्य योजना अपि भूतकालदर्शितुम् एव करणीयम् अन्यत् किम् इच्छति स्म हा अग्रिमे कृष्णः नवनीतं बहु इच्छति स्म सः प्रतिदिनं नवनीतं खादति स्म नवनीतं मक्खन् बटर् इति बहु इच्छति स्म प्रतिदिनं नवनीतं खादति स्म तत्तु वयं सर्वे जानीमः कृष्णस्य नवनीतं नवनीतं बहु इच्छति कृष्ण नवनीतं खादति स्म इति अग्रिमे रजनीशः श्रीमन् आं भगिनि श्रीमान् श्रीमन् मम माता वदति यत् श्रीकृष्णः मृत्तिकां अपि खादति स्म हा मृत्तिकामपि अत्र पृच्छतु अत्र अस्माकं तत्र एका पुराणेषु एका कथा अपि वर्तते मृत्तिका सः मृत्तिकां खादितवान् माता तत्र आगच्छति माता तत्र आगच्छति स्म अनन्तरं तत् चय्या तत्र किं दृश्यते तत्र विश्वदर्शनम् अभवत् इति कथा अस्ति खलु नवनीत खादी तथा मृत्तिद अग्रिमे सत्य सत्य भो सृत्ति का खादी स्म कि तदाता यशोदा कृष्ण तर्जय हलो सत्यं सः मृत्तिकामपि खादति स्म किन्तु तथा माता यशोदा कृष्णं तर्जयति स्म तर्जयति इत्युक्ते किं महोदय भवान् जानाति वा आ, तिरस्कार इति किञ्चित् तत्र भिन्न भावना भिन्ना भावना अस्ति खलु तर्जनम् इत्युक्ते तत्र गृहे गृहे तत् प्रचलति माता तर्जयति एव तथैव तत्र मनसि प्रेमभावना एव आसीत् परन्तु तर्जनम तु गृहे गृहे भव भवति एव तथैव कृष्णं तर्जयति स्म तस्य विषये अन्यः कोऽपि विशेषः इति पीतञ्जलिः पृच्छति अन्यकोपि विशेषः अनन्तरम् आचार्य वदति पठति एकः मु, मुख्यः अंशः नाम सर्वदा वेणु वादयति स्म तस्य वेणुवादनं श्रुत्वा सर्वे मोहिताह भवन्ति स्म अतः तस्य एकं नाम मोहनः इति अपि अस्ति hmm. अस्तु अद्य पर्याप्तं श्वः पुनः नूतनं विषयं ज्ञा ना, ज्ञास्यामः ज्ञास्यामः इति सम्यक् अद् अत्र किम् उक्तवान् आचार्य वेणुं वादयति इत्युक्ते वेणु इत्युक्ते महोदय इति बंसी इति वेणुं वादयति स्म वेणुवादनं श्रुत्वा सर्वे मोहिता अतः मोहन यः मोहयति सः मोहनः मनमोहन इति नाम मोहन अपि इति अस्ति अस्तु अनन्तरम् आचार्य वदति अद्य पर्याप्तं श्वः पुनः नूतनं विषयं ज्ञास्य मया अस्माकमपि तत्र विषयत्रयं विषयत्रयविषय त्रयाः सन्ति अस्मि दिने इति एकः विषयः स्म इति मोहन इति नाम नामानि कोऽपि जानति वा कृष्णस्य वक्तुं शक्नोति वा अन्यानि नामानि कृष्णस्य ्याम् इतोपि तत्र मुरली इत्युक्ते वेणु मुरलीधर इति इतोपि जानाति गोपालः गोपालः श्यामसुन्दर श्यामसुन्दर सम्यक् तत्र सम्यक् सम्यक् तत्र सर्वाणि नामानि यदि वयं चिन्तयामः तत्र सर्वेषां कृते अत्र नामस्य विषये उक्तमस्ति तथैव मधुसूदन किमर्थन जयन्ति भगिनी मधुसूदन मधु इति असुरं भगवान् वनं कृतवान् सः मधुसूदनः इति नाम मधोः दैत्य मधुदैत्यस्य हननं कृतवान् आसीत् सम्यक् अत्र मुरलीधर उपते? मुरली मुरली इत्युक्ते मुरली अपि फ्रूट् एव किल वेद धारयति ली धारयति इति अतः मुरलीधरः श्यामसुन्दरः इत्युक्ते श्यामः इव सुन्दरः अस्ति भगवान् हा श्याम इत्युक्ते कृष्णवर्ण कृष्णवर्ण तथैव सः सुन्दर कृष्णवर्णस्य रूपं भगवतः तदपि सुन्दरमेव भासते एवं गोपालः इत्युक्ते किमर्थं गोपालः गोपालो पालकः इति गोपालस्य तु पालयति पाल पाल गो पाल पाल पाल गो गो सम्यक् सम्यक् सम्यक् उत्तमं तथैव ज्ञानवर्धनं भवति सम्यक् उत्तमम् अधुना द्वितीयः विषयः द्वितीयविषयः कः तस्य अपि अत्र स्क्रीन् शेर् करोमि द्वितीयः विषयः अद्य दिने एव अस्मान् अभ्यासः भवति इति एकं चिन्तनम् अस्तु द्वितीयविषये पठतु अत्रापि सम्भाषणमेव अस्ति इदानीं माता भवति राधा भगिनी हरीश होती मोदय परीश हरीशीना भाष्रम स्ना आगछत किम शीघ्र गृह शर्करास्ती भवान् आपणं गत्वा शर्कराम् आनयतु मातः किं वस्त्रं धृत्वा गच्छामि स्वच्छवस्त्रं वस, धरतु शीघ्रं द्विचक्रिकया गच्छतु द्विचक्रिका सम्यक् नास्ति अहं दावित्वा गच्छामि धावित्वा मास्तु मन्दं चलित्वा गच्छतु आपने स सा, सर्षपतैलस्य मूल्यम् अपि पृष्ट्वा आगच्छतु अस्तु गच्छामि सर्वाणि कार्याणि कृत्वा आगच्छामि इदानीं वदन्तु कः विषयः स्वविश्व त्वाप्रत्ययान्तरूपाणि इति विषयः कथं निष्पद्यन्ति तत् त्वाप्रत्ययान्तरूपाणि इति विषयः अधुना इतोपि एकः विषयः अत्र अत्रापि सम्भाषणमेव अत्र अत्रा बालकः अस्ति प्रदीपः अस्ति आपणिकः अस्ति बालकः प्रदीपः आपणिकः इदानीं जयन्तीभगिनी बालकः भवति जयन्तीभगिनी बालकः माल्टीभगिनी प्रदीपः जयन्तीभगिनी माल्तिभगिनीप्रदीपः श्रीवत्समहोदय आपणिक पठतु एतत् सम्भाषणम् उच्चैः पठन्तु बालकः पितः सेव सेवफलम् आवश्यकम् अस्तु आपनिकं प्रति भोः द्वे सेवफले ददातु स्वीकरोतु श्रीमान् भो फलं नष्टम् अस्ति एतत् परिवर् परिवर्त्य अन्यत् ददातु आपणिकः ददाति अहं फलं खादामि किं खादतु किन्तु प्रक्षाल्य खादतु राधः उत्थाय दन्त धावन दावने अकरोत्वा आम वा उत्तमम् इदानीं भवान् शीघ्रं गृहं गत्वा स्यूतं स्वीकृत्य आगच्छतु अहं भवन्तम् विद्यालयं प्राप्य कार्यालयं गमिष्यामि बालकः स्यूतं स्वीकृत्य आगच्छति कुत्र मध्याह्ने विद्यालयात् आगत्य अल्पाहारं च समाप्य एक एककण्टां यावत् उपविश्य पठतु अस्तु तथैव करिष्यामि कः विषयः ल्यप् प्रत्यय भगिनि लभ्यप् प्रत्यय त्वा प्रत्यय आगच्छतु गत्वा आनयतु धृत्वा गच्छामि धावित्वा गच्छामि चलि गृह आगछत कृवा आगछा कृते क्रिया दिवे क्रिए ए क्रिया हाँ भाष्रगछत स्ना कौ तो एका स्ना अन द्वितिया आगमन स्ना आगमन प्रथमतः तु स्नानं करोतु अनन्तरम् आगच्छतु पूर्वकालिका क्रिया पूर्वकालिकया क्रिया सा दर्शयितुं धातोः ता त्वा प्रत्ययान्तरूपम् पूर्वकालिकक्रिया इत्युक्ते अत्र किं प्रथमतः तु स्नानं करोतु अनन्तरम् आगच्छतु पूर्वकालिकक्रिया स्नानं करणीयमिति तत्र त्वा इति प्रत्यय आगच्छति तथैव आपणं गत्वा शर्करा आनयतु प्रथमं तत् आपणं गच्छतु अनन्तरं शर्करामानयतु पूर्वकालिकक्रिया गमनमस्ति अनन्तरं शर्करामानयतु गत्वा पूर्वकालिकक्रिया रूपं दर्शयतु त्वा प्रत्ययान्तरूपं तथैव धृत्वा धवित्वा चलित्वा पृष्ट्वापि मूल्यमपि पृष्ट्वा आगच्छतु पृच्छतु अनन्तरम् आगच्छतु सर्वाणि कार्याणि कृत्वा आगच्छामि करोमि सर्वाणि कार्याणि करोमि अनन्तरम् एव आगच्छामि अत्र द्वयोः क्रियोः कृते तत्र युगपत् प्रवर्तमाना क्रिया एवं नास्ति पूर्वकालिकक्रिया दर्शयितुं त्वा प्रत्ययस्य योजना भवति अस्तु इदानीं त्वा प्रत्ययस्य योजना अत्र भवति अत्र किं भवति अत्रापि किं वदति सः एतत् परिवर्त्य अन्यत् ददातु परिवर्त्य इत्युक्ते परिवर्तनं करणीयं तत् बृत् इति धातु तत्र परिवर्तनं कृत्वा अन्यत् ददातु तत्र फलं नष्टमस्ति तत् सेवफलं स्वीकृत्य सः गतवान् अनन्तरं फलं नष्टमस्ति एतत् परिवर्त्य अन्यद् ददातु परिवर्तनं करोतु अन्य अनन्तरं ददातु अत्रापि द्वे क्रिये पूर्वकालिकक्रिया प्रथमं परिवर्तनं करोतु अनन्तरं ददातु अग्रिमे किं वदति किन्तु प्रक्षाल्य खादतु क्षल क्षलशौचकर्मणि इति दातु तत्र प्रक्षाल्य इति इत्युक्ते तत् वाशिङ्ग् हा प्रक्षाल्य खादतु प्रथमं प्रक्षालनं करोतु अनन्तरं खादतु अत्रापि क्रिया प्रथमा क्रिया द्वितीया क्रिया अनन्तरम् उत्थाय उत्थाय इत्युक्ते उत्तिष्ठतु प्रातः उत्तिष्ठतु अनन्तरं दन्तधावनं करणीयम् अकरोत् वा इति प्रश्ने सति प्रातः उत्थाय दन्तधावनं करणीयम् इति उत्थाय उत्तिष्ठतु अनन्तरं दन्तधावनं करोतु अनन्तरं स्यूतं स्वीकृत्य आगच्छतु स्वीकरोतु अनन्तरम् आगच्छतु प्रापय्य प्रापय्य तत्र आप् इति धातु लम्भने इति हा प्रापय। विद्यालयं प्रापय्य कार्यालयं गमिष्यामि तत्रापि प्रथमता तु विद्यालयं प्राप्नोति अनन्तरं कार्यालयं गमिष्यति अग्रिमे अपि पश्यामः मध्या विद्यालया आगत अल्पहारम समाप्य एक वश्य पढ़ू आग्छति अनम अमयती अन उपवशति अनम द्वितिया पूर्वकालि दर्शय त्र लत योजना तथा तातना लतजना य स्थलमस्ति तत् समान एव एका क्रिया द्वितीया क्रिया पूर्वकालिकक्रिया दर्शयितुं त्वा प्रत्यय वा ल्यप्रत्ययः परन्तु भेदः कः अत्र पश्यतु किन्तु प्रक्षाल्य खादतु यदा अहं वदामि किन्तु चालयित्वा खादतु लिसन् केर्फुलि किन्तु चालयित्वा खादतु भेद प्रक्षा क्षा हाँ वजसर्गित बेनी सम्यलधधा अहम उपसर्ग योजयामी तत्वा प्रत्यय से प्रत्यय आगछतिपसर्गस्थ योजन तात उत्थाय लत कथा स्थि उठि अन अः गा आगत्य उपसर्ग आगत्य अनन्तरं आग। कृत्वा उपसर्गसहित यदा भवति चेत् तत्र लेप् प्रत्यय भवति उपसर्ग नास्ति चेत् तत्र त्वा प्रत्यय परन्तु द्वयोः प्रत्ययोः कृ कृते कृते का आवश्यकी एका क्रिया समापनम् एका क्रियायाः समापनम् अनन्तरं द्वितीया क्रिया प्रचलति दातात्वा दाधातु दात्वा तत्र आ उपसर्ग भवति चेत् किं भवति आ उपसर्ग भवति आदाय आदाय तत्र आदाय किमर्थम् लप्रत्यय किमर्थं तत्र उपसर्ग आगच्छति अतः लेप् प्रत्ययस्य योजनेन तत्र आदाय इति रूपं निष्पद्यते तथैव जित्वा जित्वा जिधातु अत्र वि इति उपसर्गयोजनाम करोमि चेत् विजित्य कृत्वा प्र उपसर्ग प्रकृत्य कृत्वा प्रकृत्य अत्र प्रकृत्य तथैव उपकृत्य अपि अस्ति प्रकृत्य उपकृत्य उप इति अपि उपसर्ग एव ज्ञात्वा ज्ञात्वा ज्ञाधातु त्वा प्रत्यान्तरूपं ज्ञात्वा तस्य ल्यप्रत्यान्त किं भवितुमर्हति चिन्तयतु कोऽपि वदतु विज्ञाय ज्ञाय मी उपसर्ग निधातु नयति नीत्वा किं भवति सहित? आनीय आनीय भवति अत्र पश्यन्तु सर्वे तत्र भेदः कः गत्वा यदा अहं वदामि गत्वा गत्वा इस् सार्ट् आफ़् आफ्टर् गोयिङ्ग् गत्वा अहं गृहं गत्वा चायं पिबामि दट् इस् आफ्टर् गोयिङ्ग् आफ्टर् गोयिङ्ग् होम् परन्तु यदा अहं लेफ प्रत्ययान्तरूपम् उपयोजयामि आगत्य इति तत्र उपसर्गस्य योजनेन उपसर्गस्य योजनेन किं भवति तत्र अर्थपरिवर्तनं तत् अस्माभिः सम्यक् रीत्या चिन्तनं करणीयं यदा नीत्वा नीधातु अस्ति नीत्वा नयति नयति इति लट्लकाररूपं नयति नीत्वा नीत्वा इस् टु यु केन् सी टु केरि ओर् टु टेक् आनीय इत्युक्ते सम्यक् इति तत्र भेदः तु वर्तते सर्वेषु स्थलेषु भेदः वर्तते अति न कृत्वा तत्र उदाहरणार्थं भू इति धातु भू धातोः कृते त्वा प्रत्ययन्तरूपं किं भवितुमर्हति भूत्वा भूत्वा परन्तु अनुप्रत्यय योजयतु किं भवति अनुभवय तत्र अनुभवं करोति इति तत्र बहु किमपि भेदः तत्र वर्तते इति न परन्तु तत्र अर्थदृष्ट्या तस्य उपयोजनं भवेत् हा अत्र धृत्वा स्वच्छवस्त्राणि धृत्वा धृत्वा तत्र किं भवति लेप् लेप प्रत्ययन्तरूपं चिन्तयतु धृत्य आधृत्य लेप् प्रत्यययोजयामः चेत् उपसर्गः भवेत् एव आदृत्य इदानीं पश्यतु क्रीधातु अस्ति क्रीधातु त्वाप्रत्ययन्तरूपं वदतु शिवत्समहोदय भवान् वदतु क्रीधातो कृते त्वा कृत्वा कृत्वा तत्र ल्यप्रत्ययन्तरूपं वदति वा तत्र विक्रीय इदानीं भेदः वर्तते कृत्वा इष्टु बाय् विक्रीयुल् विक्रयणं करणीयम् इत्युक्ते टु सेल् कृत्वा इष्टु बाय् ओके तत्र गृहधातु गृहधातु कृते वदतु शिवत्समोदय इष्टु कोल्ड् गृहीत्वा तत्र चिन्तयतु लेप् प्रत्ययन्तरूपं कथं भवति उपसर्गस्य योजनेन um... सम इति उपसर्ग चिन्तयतु सम उपसर्ग कथं भवति सर्वं um... जालपुटे अस्ति परन्तु ओरल् प्राक्टिस् कृते अहं पठामि तत्र सम इति उपसर्ग गृहधातुः यथा गृहीत्वा भवति तद् सङ्गृह्य सङ्गृह्य तत् सङ्ग्रहणमिति अस्ति खलु कलेक्षन् इति कलेक्षन् सो इत्युक्ते गृहीत्वा इष्टु होल्ड् सङ्गृह्य इति वदाति चेत् तत्र कलेक्षन् इति भावः अस्तु हा अत्र इदानीं जि धातुः कृते कथं भवति चिन्तयतु कोपि वद जि त्वाप्रत्यान्तरूपं किम् इदानीं परपरा अपरा उपसर्गम् उपयोजित्वा रूपं वदतु लेप् प्रत्ययन्त पराजित्य लेप् अस्ति खलु पराजित्य अत्र पराजित्य तत्र अर्थ अर्थभेदः वर्तते वा अर्थभेद वर्तते पराजिते इत्युक्ते तत्र पराभवं भवति जित्वा इत्युक्ते जय भवति तत्र अथ अर्थभेद उपसर्गस्य योजनेन भवति अस्तु दृश्यधातोः कृते कथं भवति वदतु दृश्य दृष्ट्वा दृष्ट्वा तत्र समुपसर्गपूर्वकदृश्यधातु भवति चेत् कथं भवति सन्दृश्य सन्दृश्य तत्र किम् अभवत् अत्र सन्दृश्य तत्र अर्थभेदः नास्ति दृष्ट्वा सन्दृश्य किञ्चित् तत्र अदृश्य अदृश्य सम्यक् परन्तु अत्र किं भवति अ इति योजनेन तत्र नयसमास आगच्छति तत्र हा अस्तु परन्तु अदृश्य इति अस्तु सम्यक् सम्यक् चलति हा इदानीं नमधातु स्वीकरोतु भारतमहोदय भवानपि वदतु नमधातु अस्ति नमनं नम करणीयं किं वदति त्वाप्रत्यान्तरूपं नत्वा नमनं करणीयम् अत्र प्र उपसर्गपूर्वकं किं भवति प्रणम्य प्रनत्वा तत् कथं भवति प्रयोजनेन प्रणत्वा अत्र अत्र रूपं भवति प्रणम्य प्रणम्य शिरसा देवम् इति स्तोत्रमस्ति खलु प्रणम्य एकवारं लिखित्वा सर्वेषां कृते दर्शिष्यामि एक तत्र अस्माकं विषयः कः प्रत्यय स्क्रीन् दृश्यते न भगिनी न दृश्यते दृश्यते न न दृश्यते न दृश्यते त्वा प्रच्यते ले अत्र अहम् उक्तवती गत्वा गमधातोः कृते अत्र तत्र क इति अस्ति तत अपगच्छति गम म अपगच्छति गत्वा इति आगच्छति सर्वेषु स्थलेषु इदानीं नी धातो विषये अस्माकं चर्चा नम नमधातो कृते गम नम नत्व ल्यप् प्रत्यय तत्र आ इति उपसर्ग आ ग लप् प्रत्यये किं भवति प अपगच्छति तत्र ल अस्ति ल अस्ति ल अपगच्छति य एव आगच्छति तत्र आ गश्रूयते अन्तिमता नत्वा नत्वा किम? प्र उपसर्ग नमधातु प्र न अनन्तरं किं य इति योजना प्रणम्य परन्तु अत्र रेफः अस्ति अतः तत्र नत्वं भवति प्रणम्य इति रूपम् प्रणम्य शिरसादेवं गौरीपुत्रं विनायकम् इति अस्ति खलु प्रणम्य स्पष्टमस्ति भरत् महोदय yes. इदानीम् इतोपि एकं त्वा अनन्तरं वयं पठिष्यामः जालपुटे यद्दत्तमस्ति तस्य अपि पठनं तु भवेत् इदानीं स्था इति एकं तस्य विषये किञ्चित् चिन्तनं करोतु भारतमहोदय भवान् वदति वा त्वा प्रत्ययान्त किं भवति प्रथमं तु स्थित्वा त्वा प्रत्ययान्त अनन्तरं यदा भवान् उक्तवान् तद्भवति उत्थाय कथम् उत् इति उपसर्ग य उत्थाय परन्तु अत्र अर्थभेदः अस्ति स्थित्वा इत्युक्ते किम् तत्र एव स्थिरः उत्थाय इत्युक्ते किम् उत्थाय इन् वास् गेटिङ्ग् अप् yeah. अर्थभेदः एवं कुत्रचित् अर्थभेदः सम्भवति कुत्रपित् अर्थभेदः नास्ति अर्थदृष्ट्या समान एव परन्तु यदा यदा, यदा धातोः योजना उपसर्गसहित् भवति तदा तदा लेप् प्रत्ययागच्छति उपसर्गरहितधातोः कृते त्वा प्रत्यय आगच्छति अर्थदृष्ट्या एका क्रिया अनन्तरं द्वितीया क्रिया पूर्वकालिकक्रिया दर्शयितुं लेप् प्रत्ययस्य योजना लेप् प्रत्ययस्य योजना Abhi, just uh, see, for example, she looked at me, smiled and left. Somebody is coming, she looked at me and she smiled and then she left. So, maam drushtva sa vihasya agachat. Atara vihasya, atara itopi, atara maam drushtva hasitva sa agachat. परंतु लत योजना यद कथ दृष्टि वि ह्य विपसर्ग हस्तु सागछत में अग्रिमे में वर्गे अभी अस्पवा पठनीय चिंता मस्त श्रृति धा श्रृधा अर्थक श्रोतिः श्रवणं करणीयमिति अर्हति श्रवणं करणीयम् अत्र त्वा प्रत्यान्तरूपं किं भवति श्रुत्वा श्रुत्वा श्रुत्वा अस्तु इदानीं तत्र प्रति इति उपसर्गं यद्या योजयामः चेत् किं भवति प्रश्रुत्य प्रतिश्रुत्य ुत्य अन्तिम य एव शक्यते अत्र भेदः श्रुत्वा इस् जस्ट् लेसन् परन्तु प्रतिश्रुत्य इत्युक्ते आफ्टर् टेकिङ्ग् अ प्लेज् प्रतिज्ञा प्रतिज्ञा पालनमस्ति खलु तत्र प्रतिज्ञा प्रतिश्रुत्य एवमस्ति हसविषयाम् उक्तवती हसित्वा विहस्य अनन्तरम् इतोपि लभ इति धातु अस्सी चे, कि लभ चे, अस्सी चेत ला अस्म वि वेबसाइट उपरी कितम तरह पठन कू अग्रिमे वर्गे अभी तथे वि तत् स्मविषयस्य पठनं तु एतत् त्वालप् तस्य पठनं कुर्मः पठतु भगिनी भवती पठतु त्वाल्य इक्त्वा लप् इति प्रत्ययौ स्तः एककर्ता कार्यद्वयं क्रमेण करोति पूर्वकार्यं यत् अस्ति तस्य सूचना धातोः इक्त्वान्तरूपेण भवति यदि धातु दात, धातुः उपसर्गसहितः भवति तर्हि इक्त्वा प्रत्ययस्य स्थाने ल्यप्प्रत्ययः भवति इक्त्वान्तशब्दः शब्दाः शब्दा ल्यप्रत्यय प्रत्ययान्तशब्दाः अव्ययानि भवति हा तत्र अव्ययरूपेण आगच्छति तत् त्वा प्रत्ययस्य कृत्वा या नत्वा रूपाणि नास्ति प्रथमाविभक्ति द्वितीयाविभक्ति तृतीयाविभक्ति एवं नास्ति तत् अव्ययरूपेण आगच्छति अस्तु तथैव लेफ् प्रत्ययस्य कृते अपि आगत्य प्रणम्य तत्र अव्ययरूपेण तत्र विभक्तिप्रत्ययान्तशब्दाः नास्ति इति mm. मालती भगिनी, भगिनी में धन्यवादं राधा प्रत्यय ध्यानेन पठतु hmm. प्रथमं कार्यं बालकः देवालयं गच्छति hmm. सः अर्चति hmm. त्वान्तरूपं बालकः सात्वा सः क्रीडति सः खादति सः क्रीडित्वा खादति त्वं पुस्तकं पठसि त्वं उत्तरं देहि उत्तरं देहि अहम् आपणं गच्छामि अहं, अहं शाखानि आनयामि अहम् आपणं गत्वा शाखानि आनयामि इत्युक्ते वेजिटेबल्स् वेजिटेबल्स् कृषिकाः भूमिं कर्षन्ति ते जलं सिञ्जन्ति कृषिकाः भूमिं कृष्ट्वा जलं सिञ्जन्ति कर्मकाराः कार्यं कुर्वन्ति ते वेत कार्यं कृत्वा वेतनं नयन्ति रामः चिन्तयति सः उत्तरं लिखति रामः चिन्ति चिन्तयित्वा उत्तरं लिखति यथमा क्रिया द्वितिया प्रथम कार्य देवाल गमनम अनम प्रथम कार्य खादनमन पानम पिबती तथा स्ना पाक कार्य क्रीड़न खादनमें हाँ प्रथम कार्य दर्शि त्रवाय से योजना इदानीं स्पष्टमस्ति इतपर्यन्तं यावत्पर्यन्तं वयं पठितवन्तः तावत्पर्यन्तं स्पष्टता अस्ति सर्वेषां कृते स्पष्टमस्ति खलु धन्यवादः धन्यवादः इदानीम् अग्रिमे जयन्ती भगिनी पठतु आं बेनि स्वान्त स्वान्तरूपाणि दातुः लट्लकारे एकवचन त्वान्तरूपं गं गच्छति गत्वा पट् पठति पठित्वा कृ करोति कृत्वा हस् हसति हसित्वा खाद् खादति खादित्वा धाव् धावति धावित्वा पत् पतति पतित्वा स्मृ स्मरति स्मृत्वा क्रीत्वा इदानीम् एकनिमिष इदानीं पर्याप्तं mm. हा दशपर्यन्तम् इदानीं भवती mm. फ्रोम् वन् टु mm. टेन् कस्यापि mm. चयनं करोतु वाक्यरचना mm. करोतु त्वाप्रत्यान्तरूपं अहं mm. mm. मन्दिरं गत्वा अहं मन्दिरं गच्छति देवं नमस् नमस्करोति अहं मन्दिरं गत्वा देवं नमस्करोति सम्यक् अहं पाठं पठति पठामि अहं सारि अहं पाठं पठामि अहं पाठं पठित्वा लिखामि लिखु ददातु अहं पाठं लिखित्वा भोज् भोजनं करोमि करोति अहं कार्यं कृत्वा अनन्तरं शयनं करोमि सम्यक् हस् हसति हसित्वा अहं हसित्वा कार्यं करोमि खाद् अहं खादित्वा वाक् चलनकार्यं करोमि बालकः धावित्वा आपणं गच्छति पत् फलं सारि फलं पतति फलं पतित्वा भूमौ भूमौ भवति अस्तु अस्तु स्मृ दाति स्मृ श्म्रु, स्मरति अहं श्लोकं स्मृत्वा वदामि अहम् कदलीफलं क्रीत्वा आगच्छामि सम्यक् उत्तमम् उत्तमम् अस्ति अग्रिमे अग्रिमे पठति श्रीवत्समहोदय अग्रिमे पठतु हृ हरति हृत्वा सृ सरति श्रुत्वा श्रु शृणोति श्रुत्वा स्नाति स्नात्वा भ्रमति भ्रमित्वा जपति जपित्वा स्वन् क्रन्द् क्रन्दति क्रन्दित्वा निन् निन्दति निन्दित्वा नृत्य नृत्यति नृ सम्यक् वाक्यद्वयं वा त्रयं वदति वा आम् आम् वदति Har Harati and Harati is blessing, right? No, no, Harati is to take away. Haranam um, Karaniyam, um. it is taken away. Abba Harati, api taladha, api taladha, api taladha, api taladha, api taladha, api taladha, api taladha, api taladha. Samyak, samyak, sataibam. Um. अहं स्यूतं हृत्वा आपणं गच्छामि तत्र वाक्यदृष्ट्या तु सम्यक् एव अस्ति परन्तु सम्भाषणे यदा वदामः चेत् शु, शु, स्यूतं हृत्वा इत्युक्ते तत्र भावकः अत्र कस्य अन्यस्य स्यूतमस्ति तस्य हरणं भव भवान् कृतवान् इति भावः निष्पद्यते खलु हा अत्र वाक्य व्याकरणदृष्ट्या तस्य नास्ति महोदय परन्तु तत्र तद्भावः अस्ति अस्तु एकं करोतु तत्र श्रुत्वा विषये वदतु वाक्यरचना करोतु शृणोति श्रुत्वा अहं सङ्गीतं श्रुत्वा चलनं करोमि अप्रभातकाले अहं सङ्गीतं श्रुत्वा वा श्लोकं श्रुत्वा एवम् अन्यानि कार्याणि करोमि इति प्रथमं तत् शृणोति अनन्तरम् अन्यं कार्यं यत् किमपि अस्ति तत तत् करोति तत् श्रुत्वा करोति अनन्तरं निन्दित्वा विषये एकवारं निन्दित्वा अहं अहं बालकं निन्दित्वा पाठं न करोमि अहं बालकं निन्दित्वा पाठं न करोमि पाठं न करोमि इत्युक्ते किं वक्तुम् इच्छति भवान् निन्दित्वा इस् निन्दनं करो निन्दनं अहं पाठं करोमि परन्तु निन्दित्वा न करोमि एवम् अस्तु अत्र पश्यन्तु निन्दित्वा इति जनाः अन्यान् निन्दित्वा दुःखं जनयति Hmm. तत्र अन्येषां कृते निन्दा करणीया वा भर्त्स्ना वा गर्हा वा तत्र निन्दायाः कृते भिन्नाः शब्दा यदस्ति निन्दायाः तत्र किमपि प्रयोजनम् अत्र नास्ति एव निन्दा निन् निन्दित्वा जनाः अन्यान् निन्दित्वा दुःखम् एव जनयति जनयन्ति इति वक्तुं शक्नुमः हा किञ्चित् नि, शक्न। चिन्तनं hmm. कृत्वा Ah, नर्तित्वा विषये वदति अनन्तरं वयं कथाय नर्तित्वा ah, ah, मयूरः नर्तित्वा वर्षं वर्षा ah, ऋतुम् अनुभवति सम्यक् बहु सम्यक् बहु सम्यक् अग्रिमे ये अग्रिमे तस्य पठनं वयम् अग्रिमे वर्गे कुर्मः तत्र ल्यप् प्रत्ययान्त त्वान्तप्रत्ययः सर्वेषामेव पुनः एकवारम् अग्रिमे वर्गे तस्य अध्ययनं भवति अद्य इदानीं कथायाः समयः अस्माकं कथापठनम् अपि कुर्मः अस्तु कः अस्ति अत्र आरम्भं करोतु श्यामलाभगिनी अस्ति खलु श्यामलाभगिनी भवती पठति वा कथा हा अहं पठामि एकनिमिषः अत्रश पठतु सिं नदृशते अ आ, आ इदानीं दृश्यते दृश्यतेन पदम् अ पादगाच्छत्रयोः उत्पत्तिः अत्रके मसि पादुका तुछुण। पादुका पादका पादुका च पादुका छत्रयोः उत्पत्तिः उत्पत्तिः तत्र उत्पत्ति कदा अवश्य तत्र कदा अभवत् पादुका छत्रयोः द्वयोः पादुका इति पादुका इत्युक्ते किं स्लीपर् च अम्रेला इति अस्ति खलु द्वयोः उत्पत्तिः कदा अभवत् तस्य विषये कथा सुजित् प्रमाणिकः लेखकः पुराकाले जमग्निः नाम तेजस्वी तेजस्विमुनिः आसीत् तस्य पुत्रः भगवान् परशुरामः hmm. तस्य पत्नी रेण्का एकदा hmm. ग्रीष्मकाले तस्य मुनेः आश्रमे काचित् विस्मयकरी घटना सञ्जाता hmm. मुनिः जमग्निः धनुषि ज ज्याम् आरोप्य भाणप्रयोगं कुर्वन् आसीत् hmm. तस्य पत्नी रेणुकाद्वये दूरे पतितान् बाणान् आनीय मुनये ददाति स्म hmm. तस्मिन् दिवसे मुनिः अन्यत् सर्वं कार्यं विस्मृत्य धनविद्याभ्यासे एव भग्नः अभवत् hmm. तस्य पत्नी तस्मिन् कार्ये तस्य साहायिका आसीत् सहायिका hmm. आसीत् अत्र किम् अभवत् जमदग्नि एकः पुराणकाले जमग्निः नाम कश्चित् तेजस्विमुनिः तस्य पुत्रस्य नाम जमग्निः नाम हा जमदग्नेः पुत्रस्य नाम किम् आसीत् तेजस्वी न परशुरामः तस्य पुर तस्य पत्नी का रेणुका इदानीं घटनायाः विषये दत्तमस्ति ग्रीष्मकाले अभवत् ग्रीष्मकाले का स्थितिः अस्ति भगिनि शैत्यमस्ति वा मुनेः आश्रमे न न एकनिमिषं भगिनि ग्रीष्मकाले शैत्यमस्ति किम् अस्ति ग्रीष्मकलि अह ग्रीष्मकाले शैत्यम् अस्ति वा न इति शैत्यम् अस्ति ग्रीष्म इत्युक्ते कोल्ड् वेदर् वा ग्रीष्म इत्युक्ते समसीसन् तत्र आतपि घटना अभवत् तदा मुने गमनग्ने धनुषी जाम् आरोप्य बाणप्रयोगं कुर्वन् आसीत् तथा धनुर्विद्या इति अस्ति खलु धनुर्विद्यायाः तत् प्रयोगं सः तत कृतवान् तस्मिन् समये बाणप्रयोगं कुर्वन् आसीत् तत् प्रचलन् आसीत् पत्नी अस्ति पत्नी रेणुका सा किं करोति दूरे पतितान् बाणात् आनीय मुनये ददाति स्म अत्र पश्यन्तु सर्वे स्म इति प्रयोगस्य योजना तथैव आनीय नीत्वा नि नी इति धातु त्वा प्रत्यान्तरूपं नीत्वा उपसर्गसहित् आ नि य इति ल्य प्रत्यान्तरूपं स्म अपि अस्ति दूरे पतितान् बाणान् आनीय मुनये ददाति स्म इदानीं स्थिति का hmm. अन्यत् सर्वं कार्यं विस्मृत्य अत्रापि पश्यन्तु ल्यपप्रत्ययन्तरूपं स्मृत्वा त्वा प्रत्यान्तरूपम् उपसर्गसहित विस्मृत्य ल्यप्प्रत्यन्तरूपं धनुर्विद्याभासे एव विद्याभ्यासे एव मग्नः अभवत् टोटलि एङ्ग्रास् इन् हि धनुर्विद्या शरी तस्य पत्नी तस्मिन् कार्ये तस्य सहायिका आसीत् पत्नी अपि तस्मिन् समवे तस्य साहाय्यम् कीदृशम् साहाय्यम् जमदग्निधनुषिजाम् आरोप्य बाणप्रयोगम् करोति पत्नी दूरे पतितान् बाणान् आनयति मुनये ददाति इति योजनेन तत्र भूतकाल दर्शय इदानीं पर्यन्तं स्पष्टमस्ति सर्वेषां कृते स्पष्टमस्ति अस्तु भगिनी अस्तु अस्तु धन्यवादः धन्यवादः अग्रिमे भारतमहोदय पठति वा भारतमहोदय पठति वा आं भगिनि पठता आतपः प्रवृद्धः mm. मध्याह्नकाले तु अग्रः आत आततापः mm. परन्तु मुने मुनेः तत्र अवधानं नासीत् mm. सः तु पूर्णतः धनुर्विद्याभ्यासे लग्नः प्रखर सूर्यतापेन मृत्तिका तप्ता जाता तस्मात् रेणुका मस्तके पादयोः च महतीं पीडाम् अन्वभवत् अन्वभवत् सा स्वेदेन अत्र च सञ्जाता सञ्जाता किन्तु मुनेः मुने तत्र अवधानं न आसीत् स तु केवले बाणप्रयोगे मग्नः रेणुका नितान्तं परिश्रान्ता क्लान्ता च अतः सा किञ्च किञ्चि कालं किञ्चित् कालं वृक्षस्य अधः स्थित्वा विश् विश्रम्य मुनेः निकटं गतवती एतत् दृष्ट्वा मुनिः कुद, कुद्दः सः रेणुकां पृष्टवान् किमर्थम एतावान विलम्बः इति पर्याप्तम् अधुना क्रमेण पश्यामः किम् अभवत् जमदग्निमुनि धनुर्विद्याभासे मग्नः क्रमशः आतपः प्रवृद्ध तत्र प्रातःकाले आरम्भं कृतवान अनन्तरं क्रमशः आतपः आतपः इत्युक्ते सूर्यस्य उष्णता आतपः प्रवृद्धः आतपः आतपस्य वर्धनम् अभवत् क्रमेण मध्याह्नकाले तु उग्रः आतपतापः उग्रः उग्र प्रखरः इति <laughs> <ना>, मध्याह्नकाले <laughs> परन्तु मुनेः तत्र अवधानं नासीत् अवधानं नासीत् इत्युक्ते किं भारतमहोदय um, हा अवधानम् तस्य संवेदना एव तस्य कृते मनसि नास्ति सह मग्नः धनुर्विद्याभासे तत्र आतपे किमपि तत्र वर्धिष्णुः अस्ति उष्णता उग्रः अस्ति आतप आतपतापः तस्य विषये मनसि ना एव नास्ति न जानाति एव न जानाति सह तो पूर्णतः धनुर्द्यास लिद्याभ्या विद्याभ्या मगन तरह एक तरह एग्रता किमर्थमस्तकाग्रता आतप आत आत आतपय ततप विषय का संवेदना है न आस तर मन से अन कितम प्रखरसूर्यतापेन मृत्ति मृदा या आसीत् सा तप्ता जाता उष् उष्मीकरणं तत्र मृत्तिकायाः अपि तत्र उष्णता तत्र लभ्यते अतः तप्ता तप्ता इत्युक्ते सिवियर् इट् इत। तप्ता शब्दस्य योजना कथं सिवियर् तस्मात् रेणुका मस्तके पादयोः महतिम पीडाम पीडाम् अन्वभवत् रेणुकाया का सीति रेणुका तत्र अस्ति दूरे पतितान् बाणात् आनयति मुनये ददाति स्म परन्तु तस्याः कृते का मस्तके पादयोः पीडाम् अनुभवति स्म मस्तके पादयोः अस्माकं विषयः पादुका छत्रयोः उत्पत्तिः वयम् अत्र कथा पठिष्य पठामः तत्र मस्तके पादयोः मस्तके मस्तकस्य उपरि किमपि न आसीत् पादौ अपि किमपि नास्ति मस्तके पादयोः अत्र पादद्वयम् अतः पादयोः तत्र द्वि द्विवचनमस्ति मस्तके पादयोः महतीं पीडा सा अनुभवति स्म सा स्वेदेन स्विन्ना दग्धपादाश्च सञ्जाता स्वेदेन स्विन्ना तत्र स्वेद इति अस्ति घर्म इति घर्मबिन्दु तत्र इति दग्धपादा दग्ध इत्युक्ते दग्धपाद इत्युक्ते किं भवति महोदय भारतमहोदय दग्ध इत्युक्ते देट् बर्निङ्ग् सेन्सेशन् इति अस्ति खलु दग्ध दग्धपादा दट् शीस् एक्स्पीरियन्सिङ्ग् बर्निङ्ग् सेन्सेशन् पादयो मध्ये तद्दग्धता सा अनुभवति स्म दग्धपादा च सञ्जाता स्पष्टमस्ति महोदय yeah. किन्तु किन्तु परन्तु मुनेः तत्र अवधानमेव न आसीत् मुनेः तत्र मुनि किं करोति धनुर्विद्याभ्यासे एव मग्नः सल्लग्नः अवधानमेव नास्ति केवले प्रयोगे ोगे मगन धनुर्द्यासे सह मग्न तर चिंतने केवल, तनसी केलधनुर्द्यास आतप प्रवृद अन त्र रेणुकाया का कि सह न जाम रेणुका निता पीरश्रांता क्लांता च्लाता ग्ला ग्लानी भावना, हाँ ग्लानी, फेटिंग सेंसेशन, हाँ निता श्रेण सा क्लांता, अत सांचितित्ल वृक्ष से अध स्थि अत्यायधा कृते स्थितयूप स्थि विश्रम्य लतयांत मुकटम गशन रेणुका किं कृतवती तत्र रेणुकाः कार्यं तत्र किं प्रवर्तते दूरे पतितान् बाणान् आनीय दूरे पतितान् बाणान् आनीय मुनय मुनये ददाति स्म इदानीं किम् अभवत् सा श्रान्ता सा श्रान्ता आसीत् श्रमेण सा श्रान्ता आसीत् आतपे सा श्रान्ता किञ्चित् काल सा कृतवती किम् विश्रांति वृक्ष से अक्ष अवतीश्रम्य श्रमपरह अन किंचित कालमेव मुनेटम ग परंतु मुने स्थित का विलब जो शीघ्र यदा मुनी बाण प्रयोग कर आसतरम शीघ्र बाणम स्वीकृत रेणुका तस्मै ददाति स्म परन्तु इदानीं सा किञ्चित् कालपर्यन्तं स्थितवती वृक्षस्य अधः अतः तत्र विलम्बः जातः मुनि कृतः स रेणुकां पृष्टवान् किं पृष्टवान् मुनि भारतमहोदय रेणुकां पृष्टवान् किं पृष्टवान् प्रश्नः कः एतावान् विलम्बः <laughs> विलम्बः किमर्थम् इति एतावान् विलम्बः किमर्थं शीघ्रं शीघ्रम् आनयतु यदा अहं बाणस्य क्षेपणं करोमि शीघ्रम् एव भवती आनयतु किमर्थम् एतावान् विलम्बः सा तु श्रान्ता आसीत् अतः तत्र विलम्बम् परन्तु मुने मनसि किमपि नास्ति अस्तु महोदय इदानीं स्पष्टमस्ति सर्वेषां कृते अस्तु अस्तु सम्यक् अग्रिमे राधान् वट् इस् मृत्तिका मृत्तिका हा मृत्तिका इति मृदा सायिल् इति सायिल् मिट्टिमिट्टि ओ मिट्टि ओके ओकेल् मिट्टिपात्रम् इति मृत्तिका मृदा अपि शब्दः तप्ता तप्ता जाता, तप्ता जाता। या? Yeah. Okay. राधा भगिनी भवती अग्रिमे तदा भयेन कम्पमाना रेणुका उक्तवती महान् सूर्यतापः तस्मात् किञ्चित् कालम् वृक्षस्य अधः विश्रम्य आगतं मया इति अग्रे पठामि वा सः रेणुकां सकृ, सकृत् सकृत् नखशिखान् शिखान्तम् शिकान, अपश्यत् तस्मात् तेन तस्याः दूरवस्था सम्यक् एव अवगता पत्न्या दूरवस्थायाः कारणभूतस्य सूर्यस्य विषये सः नितराम् क्रुद्धः क्रोधकारणकारणतः तस्य चक्षुषी रक्तवर्णे अभवताम् सः क्रोधेन भ्रूकुटी वक्री वक्रीत्वा धनुषी बाणं संयोज्य दिवाकरं उक्तवान् उद्दत तव एतत् धाष्ट्यम् अहं न सहेष्ट्यम् अहं न सहे त्वम् मम पत्नीम् रेणुकाम् नितराम् संपीदितवान असि अतः अहं त्वां दण्डयेयम् एव इति इदानीं किम् अभवत् वदतु किञ्चित् स्पष्टीकरणम् रेणुका भयेन उक्तवती mm -hmm. सूर्यमहाताप अस्ति तत्कारणम् अहं किञ्चित् काले वृक्षस्य अधः विश्रामं करिष्यति इति अत्र पश्यन्तु अत्रापि एषा कथा तत्र विशेषता का तत्र लेप् प्रत्ययान्त त्वाप्रत्ययान्तरूपाणि अपि अस्ति तत्र बहवः mm. सन्ति अत्र विश्रम्य लेप् mm. प्रत्ययान्त तत्र विश्रामं कृतवती अनन्तरम् आगतवती mm. विश्रम्य mm. आगतं मया महान् सूर्यतापः अत्र mm. भयेन कम्पमाना कम्पमाना इत्युक्ते भगिनि uh, किम् अभवत् अनन्तरं जमदग्नि ऋषि रेणुकां दृष्ट्वा पश्यन् तस्य अवस्था ज्ञातवान् तत्र नखशिखान्तम् इत्युक्ते स्टार्टिङ्ग् फ्रोम् नख अप् टुखिखान्तम् अप् इति अस्ति अवस्था सा सः ज्ञातवान् पत्न्याः अवस्था विषये सह सूर्यस्य क्रोधम् अभवत् सूर्यविषये मनसि क्रोधं, क्रोधं जनय तत्र अजनयत् इति क्रोधकारणातः तत्र शरीरे किं परिवर्तनं तदपि दत्तमस्ति तत्र किं परिवर्तनं शरीरे तस्य चक्षुषी रक्तवर्ण अभवत् चक्षुषी इति भ्रूकुटी ब्रौस् ऐट् ऐब्रौस्रे वक्रीकृत्य अत्रापि लप् प्रत्यय एक्साक्ट्लि एक्साक्ट्लि exactly, exactly. okay. अतः एव तत्र कथायाः चयनमहं कृतवती तत्र ल्यप्रत्यया शब्दाः बहवः तत्र वक्रीकृत्य क्रोधेन भ्रुकुटी वक्रीकृत्य अत्र चित्रदर्शिवर्णनमस्ति धनुषि बाणं संयोज्य अत्र अपि ल्यप्रत्ययान् संयोज्य संयु युजधातु त्वा, त्वा किं भवति योजित्वा अत्र ल्यप्रत्यय सम उपसर्ग संयोज्य दिवाकरम् उक्तवान् दिवाकरः किं नाम दिवाकरः भवति सूर्य सूर्य दिवाकरम् उक्तवान् किम् उक्तवान् वदतु अये उद्धत अये उद्दीनिङ्ग् ण्ट् रैट् एरोगेण्ट् ओके तव एतत् तस्य एतत् अहं न सहनं करोमित्युक्ते एतत् ओ धार्ष्ट्यं डेरिङ्ग् ओके ओके No, I am not going to tolerate it. Tolerate it. No. Okay. okay. Have uh, you uh, made? Thvammama Patni Renukam uh, Piditavan. Wow. Uh, ah, aham uh, Tatkaranam uh, Dandanam Dadami. Uh, Dandanam uh, Dadami. Dandam Dadami. Dandam Dadami. Dandam Dadami. Dandam Dadami. Munivara Pruddha Opena Shaha. क्रुद्धः uh, क्रुद्धः क्रुद्धमनसि सः उक्तवान् अहं mm. दण्डयामि इति अहं त्वं दण्डयामि अस्तु उत्तममस्ति धन्यवादः भगिनि अग्रिमे अग्रिमे मल्ती भगिनी पठति वा एतत् श्रुत्वा तथा वदामि भगिनि हा एतत् श्रुत्वा तथा वा एतत् वेषं ब्राह्मणवेषं धृत्वा जमग्नेः निकटम् आगत्य करौ संयोज्य प्रणम्य अब्रवीत् भगवान् भगवान् सूर्यस्य कः दोषः अत्र अस्मिन् ऋतो ऋतो सूर्यतेजः अस्मिन् ऋतौ सूर्यतेजः यदि अधिकं न स्यात् तर्हि कथं फल फलसस्या फलसस्यादिवृद्धिः भवेत् तस्मात् सूर्यस्य उष्ण उष्णता आवश्यकी एव सूर्यं तेना हा पृथिव्यां पृथिव्यां प्राणधारणं न शक्यम् अतः तस्मिन् क्रोधः अनुचितः इति किम् भवति इदानीम् अत्रापि पश्यन्तु सर्वे त्वा प्रत्ययान्त लयान्त बहवः सन्ति श्रुत्वा <स्वाँ> आगत्य संयोज्य धृत्वा प्रणम्य ग्ने पुरतः ब्राह्मणवेषं धृत्वा करौ संयोज्य प्रणम्य प्रवेत् एकनिमिषम् अत्र करौ संयोज्य इत्युक्ते फोल्डिङ्ग् हेण्ड्स् ल्यप्रत्यय सञ्च संयोज्य हा फोल्डिङ्ग् इस् हेण्ड् प्रणम्य नीत्वा तत्र प्रणम्य इति ल्यप्रत्ययन्तरूपम् अब्रवीत् किम् अब्रवीत् इति वदतु हा किम् अब्रवीत् अस्मिन् ग्रीष्मऋतौ सूर्यस्य उष्णम् अधिकमेव तर्हि फलद् फलं सस्यानि वृद्धिः कारणात् तस्मात् सूर्यस्य उष्णः आवश्यक अवश्यम् इति वदति विना सूर्यं अत्र पश्यतु ग्रीष्मकालः आसीत् तस्मिन् समये सूर्यतेजः आवश्यकम् आवश्यकः फल थला, फलानि तत्र सस्यानि तेषां वृद्धिः भवेत् इति विचारः यदि सूर्यतेजः न भवति चेत् फलवृद्धिः वा सस्यवृद्धिः न भवति एव सूर्यस्य उष्णता आवश्यकी एव सूर्यं विना पृथिव्यां प्राणधारणं न शक्यम् सूर्यम् इति प्राणदाता एव सूर्यः इति प्राणदाता सूर्यम् विना पृथिव्यां प्राणधारणं भवति वा सस्यानि फलानि न वर्धयन्ति कथं जीवधारणा वा प्राणधारणा भवितुमर्हति न भवति अतः तस्मिन् क्रोधः अनुचितः ब्राह्मणवेषम् धृत्वा तत्र सूर्यः आगच्छति सः अपि भयेन कम्पमान जमदग्नि ऋषि महाकोपिष्टमहाक्रोध क्रोधी इति आसित भयेन कम्पमान सूर्यः अपि तत्र क्रोधम् मा करोतु ऋषि ऋषिवरः ऋषिवर हे भगवान् क्रोधम् मा करोतु क्रोधः न योग्यः अत्र अनुचितः एव फल सस्देज सूर्यतेज से आवश्यकता सह आवश्यकवती अस्तु धन्यवाद भगिनी मलती धन्यवाद अग्रिमे जयंती भगिनी एकुत् मु क्रोधेन अवदत सूर्यदेव न्तरं धृत्वा आगतः आगतः असि किं मया न ज्ञायेते तत् तव एत तव एतेन चातुर्येण अलम् अहं प्राणप्रयोगेन प्रयोगेन त्वाम् कानं करिष्यामि मुनिः जमदग्नि वदति सूर्यदेवस्य रूपं जमदग्निमुनि जानाति अतः सः ए सूर्यदेव त्वं मुनिवेषं धृत्वा आग आगतवान् इति अहं जा जानामि इति उक्त जमदग्निमुनिः वदति अतः भवत् भवतस्य भवतः चातुर्यम् अलम् इति hmm. जमदग्नि मुनि वदति अहं प्राणप्रयोगेण त्वां कानं करिष्यामि इति hmm. मम प्राणप्रयोगं कृत्वा भवतां कानं करिष्यामि इति नेत्रे हानि hmm. अग्रिमेपि पठतु अनन्तरं शिवस्य महोदय तदा तदा सूर्यः विनम्रस्वभावेन दिनम, गद्गत अन्तः सन् उक्तवान् हे भगवन् क्षन्तव्य क्षन् क्षन्तव्यः अहम् क्षन्तव्यः अहम् मया प्रमादः कृतः किन्तु मम तापस्य आपक तापस्य अपकारणं माम् अभ्यत्यताम् अभ्यत्यताम् अतः लोकस्य अप अपकारः भवेत् निश्चयेन इति तदा सूर्यभगवान् सूर्यभगवान् उक्तवान् विनंस्रस्वभावेन विन विनयता विनयता घण्ट मीन् किं वदामि ध्वनि ध्वनि अपि किञ्चित् क्षणैः भवति किल वेणी सम्यक् सम्यक् उक्तवान् हे भगवान् क्षन्तव्यः क्षम्यताम् मां क्षम्यताम् इति उक्तवान् मया प्रमादः कृतः भ्रमति भवति इति भ्रमय भवति इति सूर्यभगवान् उक्तवान् किन्तु मम तापस्य अपकारणम् अपाकरणं मा अभ्यत्यता इति मम तापस्य अपाकरणं मा अभ्यर्थम् सूर्यभगवान् उक्तवान् सूर्य सूर्यस्य सूर्यत्वं तापत्वम् अस्ति किल तत्तु आप अपहरणं मा करणीयम् इति उक्तवान् ततः लोकस्य अपकारः भवेत् तापः न भवति चेत् तत्र अभ्यर्थ्यता न योग्यम् इति योग्यम् इति लोके लोकस्य अपकारः अपि भवेत् भवेत् निश्चयेन इति तदर्थं लोक लो लोकस्य जीवनाय अपकारः भवति इति उक्तवान् किलबेन् सम्यक् तत्र mm -hmm. वयं सर्वे mm -hmm. उपकृत्यः सूर्यस्य mm -hmm. उष्णताकारणात् वयं सर्वे उपकृश्यकम् अवश्यकम। अवश्यकम। आवश्यकं भवति mm आवश्यकं -hmm. जीवनप्राणधारणात् तेनैव भवति mm -hmm. अतः mm -hmm. सः मा करोतु इति विनन्ति विनम्रभावेन विनम्रभावेन विन विन विन विनतया विन विनीतभावनया उक्तं धन्यवाद श्रीवत्समहोदय पठति वा आम् सूर्यस्य विनम्रतां विनतां च दृष्ट्वा मुनिः उक्तवान् हे सूर्यदेव तव तेजसा अस्माकं कष्टं यथा न भवेत् तथा उपायमेकं सूचय इति तदा सूर्यदेवः स्वस्य दैवशाख्या एकं छत्रं द्वे पादु पादुके च सृष्ट्वा स्रिष्ट, मुनये प्रदत्तवान् मुनिः तानि अवलोक्य सूर्यं पृष्टवान् भोः सूर्यदेव एतेन अस्त्रेण मम किं वा प्रयोजनम् इति Um, अग्रे पठन् अग्रिमे किमस्ति अत्र हा सूर्यस्य सु, सूर्यदेवः बहु विनम्रता सम्भाषणं करोति तद तद् तद् तस्य विनम्रता सम्भाषणं दृष्ट्वा मुनिः सूर्यदेवाय सूर्यदेवस्य उक्तवान् अतः अहम् अथ किमपि उपायं ददातु सूचयतु तेन किं भवेत् तव तेजसा तव तेजसा तत्र तेजस् शब्दस्य तृतीयान्तपदं तव तेजसा अस्माकं कष्टं न भवेत् इत्युक्ते तप तव तापकारणात् तव उष्णकारणात् उष्णता इति कारणं तेन अस्य कष्टं न भवेत् इति उपायं सूचयतु सूचयन्तु तदा अनन्तरं सूर्यदेव किं कृतवान् तदा सूर्यदेवः एकः छत्रं द्वे पादुके च अत्र दैवशक्त्या डिवैन् पवर् एकं छत्रं द्वे पादुके तत्र पादद्वयमस्ति द्वे पादुके सृष्ट्वा अत्र अपि त्वा प्रत्यान्तरूपं सृष्ट्वा मुनये दत्तवान् सृष्ट्वा इत्युक्ते तत्र सूजनं क्रिय सूजनम् इत्युक्ते तत्र क्रियेशन् इस् इन्वाल् सृजनं hmm. कृत्वा upasarga प्रदत्तवान् मुनी तानि अवलोक्य अत्र ल्यप्रत्ययान्तम् hmm. अवलोक्य अव उपसर्गपूर्वक अवलोक्य सूर्यं पृष्टवान् kim पृष्टवान् वदतु अहं किं करोमि एतेन एते अस्त्रेण मम किं प्रयोजनम् इति उक्तवान् इति पृष्टवान् अस्तु अनन्तरम् में पठतु अनन्तरं वदतु तदा सूर्यदेवः तदा सूर्यदेवः मुनि मुनिप्रवर एतत् न अस्त्रम् सदण्डस्य वस्तुनः नाम छत्रम् इति अपरस्य नाम पादुका इति छत्रमिदं ग्रीष्मकाले मम तापस्य वारणाय वारणाय मस्तकस्य उपरि धरणीयं पादुका hmm. इयं पादयोः सुरक्षा सुराक्ष सुरक्षायै धारणीया इति उक्त्वा मुनिं hmm. प्रणम्य ततो निर्गतः hmm. so, सूर्यदेवः um, uh, किञ्चित् स्पष्टं दत्तवान् um, स्पष्टीकरणं कृतवान् एतत् दण्डस्य वस्तुनः नाम छत्रं छत्रं दण्डसहित अस्ति खलु विड्डेना रैट् सो सदण्डस्य वस्तुनः षष्ठी नाम छत्रम् छत्रम् इति अपरस्य नाम पादुका पादुका इति छत्रं तापस्य वारणाय, तापात रक्षणाय धारणं पादुका पादक पादुका, पादुका, पादुका पादयोः सुरक्षायै धारणां करणीयम् इति मुनिः मुनिम् उक्त्वा इति सूर्यः मुनिं प्रणम्य उक्तवान् अनन्तरम् प्रणम्यन्तरूपम् तत्र प्रणाम इति कृत्वा स निर्गता अन्तिमं वाक्यं पठतु एवम् एवं, एवं सूर्यदेवस्य अनुग्रहेण रेणुका सर्वे मनुष्याः च सूर्यतापं रक्षिताः ततः आरभ्य जनाः पादुकायाः छत्रस्य च उपयोगप्रकारं ज्ञातवन्तः इति कथा अस्ति ततः आरभ्य जनाः पादुकायाः उपयोगप्रकारम् छत्रस्य उपयोगप्रकारम् छत्रस्य किं प्रयोजनम् पादुकायाः किं प्रयोजनम् इति ज्ञातवन्तः इति कथा अस्तु स्पष्टमस्ति सर्वेषाम् कृते स्पष्टमस्ति इदानीम् आम्रे अस्तु प्रार्थना वदति वा वदतिवा, कापी, वापि कोऽपि वदतु ओके okay, can... पूर्णमदः पूर्णमिदं पूर्णात् पूण्यमुदस्यते पूर्णस्य पूर्णमादाय वसिष्यते ओन्यवादाः पुनर्विरामः धन्यवादः पुनर्मिलामः धन्यवादः भगिनी पुनर्विरामः धन्यवाद धन्यवादः